श्रीमद्भागवत् महापुराणं च संस्कन्धम् एकोनत्रिंशोऽध्यायः श्रवणाद्दर्शनाद् ध्यानान् मयि भावो निकीर्तनात् न तथा सन्निकर्षेण प्रतियात ततो गृहान् श्रीशोकुवाच इति विप्रियमाकर्ण गोप्यो गोविन्दभाषितं विषण्णा भग्नसङ्कल्पा चिन्ता मा कृत्वा मुखान्यवशुच्वसनेन शुष्यत बिम्बाधराणि चरणेन भुवं लिखन्त्यः अस्त्रैरुपात्ममसि भविभी कुचकुङ्कुमारी तत्सुर्मृजन्त्यं पुरुदुःखभरा स्म तूष्णीं प्रेष्टं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तित सर्वकामाः नेत्रीं विजरुदितोपहति स्म किञ्चित् सम्भन् सम्भगद्गद्गिरो ब्रुवतानुरक्ताः योऽप्यवचुः भैवं विवोर्हतिं भवान् गदितुं निशंसम् सन्त्यज्य सर्वविषया तव पादमूलं भक्ता भजस्मृदुर्वग्रहमातजास्मान् देवो यथादिपुरुषो भजते मुमुक्षन् यत्पत्यपत्य सुहृदामनुवृत्तिरङ्गस्त्रीणां स धर्म इति धर्मविधा त्वयोक्तम् अस्त्येवमेतदूं पदे सपदे त्वयि से प्रेष्ठो भवान् सनुमृतां कुर्वन्ति हि त्वयि रतिं कुशलाश्व आत्मन् नित्यप्रिये तन्न प्रसीदपरमेश्वरमास्म छिन्द्या आसां भृतां त्वयि चिरादरमिन्दनेत्रा चित्तं सुखेन भवतापहितं गृहेशोऽयं निर्वीसत्योतकरावपि गृह्यकृते पादौ पदं न चलतस्तव पादमूलाद्याम कथं व्रजमथो करवाम किं वा सञ्चाङ्गनस्त हासावलोककलगेतजहेक्षयाग्निं नो चेद्वयं विरहं जाग्न्युपयुक्तदेहाध्यानेन यामपदयो पदविंशकेति जर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य अस्म्प्राक् च तत्प्रभृती नान्यसमक्षमङ्गस्थातुं तयाभिरमिता बत पारयाम ते यत्पदाम्बुजरजश्च कमेतुलस्या दब्ध्वापि वक्षसि पदं किल भृत्यजुष्टं यस्या तद्वद्व्ययं च तव प्रपन्नाः तन्न प्रसीदवृजनार्जनते घ्रिमूलं प्राप्तावृषिज्यवसति तदुपासनाशाः त्वसुन्दरस्मितं निरीक्षण तीव्रकामतप्तात्मनां पुरुषभूषणदेहि दास्यं वेक्षालकावृतमुखं तव कुण्डलश्रीगण्डस्थलाधरसंसु हृस्तावलोकम् दत्ताभयं च भुजदण्डयुगं विलोक्य वक्ष श्रियैकरमणं च भवामधस् दास्यां कास्यङ्गते कल्पदाय तमुर्च्छितेन तं मोहितार्यचरितान्नचले त्रिलोक्यां च निरीक्षरूपं यद्गो द्विजद्रुमं व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो देवो यथादिपुरुष सुरलोकगोप्ता तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तरे सुशिरःसु च किङ्करीणाम् शेषोकुमाच इतियितं तासां श्रुत्वा योगीश्वरेश्वरः प्रहस्य सदयं गोपीरात्मा रामोऽप्यरीरमत ताभिः समेताम्भिरुदारचेष्टित प्रिये क्षणोत्फुल्लमुखीं विरच्युतः उदारहासद्विजकुन्ददीधितिव्यरोचकतै वृणाक योढुभितः नृपगीयमान उद्गायन् वनिता सति यूतपः मालां बिभ्रत व्यजन्तीं व्यचरन्मण्डलयन्मनम् नद्यापुलीनमाविश्य गोपीर्भिः वालुकम् रेमे तत्तरलानन्दकुमुदा मोदवायुनां बाहुप्रसारपरिभङ्गम्भकाकरालकोरु देवेस्तनालम्भन नर्मनखाग्रपातैः क्षेल्यावलोकहसितैर्व्रजसुन्दरीणाम् उत्तम्भयन्नतिपतिं रमियाञ्चकार एवं भगवतः कृष्णाल्लब्धमाना महात्मन आत्मानं मे निरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि तासां तत्स भगदं दीक्ष्यमानं च केशव प्रशमाय प्रसादाय तत्रैवान्तरधीयत ते श्रीमद्भागवते महापुराणे पारमहुंसां शयितायां दसंस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नामैकोनत्रिंशोऽध्याय